गणेशपुराणम् क्रीडाखण्डम् अध्यायम् हण्ड्रेड् अण्ड् फोर्टीन् वीरा ऊचुः नानाशस्त्रप्रहरणौ मृदौ तौ मित्रकौ स्तुभौ असङ्ख्यादा कदा सेनाताभ्याम् निशिदिवापि च तदौ जिपुबला दृष्टौ वीरौ द्वौ समुपस्थितौ ताभ्यां बलिभ्यां निहता निजसेना विमर्दिता ययो करप्रहाराभ्यां गदौ सौ यमसादनं दृष्टा नानाविधा सेना न ना दृष्टौ तादृशौ सुरौ सिन्धुरुवाच यौ दृष्ट्वा स बिभेदि स्म कृदान्तो भूदहारकः तौ कथं शरखादेन मृतौ शंसधसैनिकाः पराक्रममिदानीं मे पश्यन्तु सर्वसैनिकाः रणभूमौ नर्तयिष्ये शिरःशत्रोर्नसंशयः चक्रयुद्धं करिष्यामि चक्रपाणेर्यतः सुतः यद्युक्त्वा हयमारुह्य मयूरेशं ययौकलः असङ्ख्यकोट्यो दैत्यानाम् पुरो यादा महाबलाः योद्धु कामासुरेन्द्रेण शिवपुत्रेण दुर्धराः तदो नन्दीपुष्पदन्तौ योद्धुं यादौ महाबलौ भूतराजश्च विकडो दशलक्षैश्च योधिभिः चपलोप्यलक्षेण योद्धु कामों षाननों नाना शास्त्र धरावु भव, ना समालोक्य सप्तव्यूहांस्य प्र्यूह दैत्यसैनिका गन्धासुरोधमदनकान्दो वीहोध्वजस्तथा महाकायश्च शार्दूलो धूर्तनामाधसप्तमः महा सप्तव्यूहान् पुरस्कृत्य युयुद्धुस्तान् समागतान् बाणवृष्ट्या समाच्छाद्य फलाग्राहिस्तान्निजग्निरे भिंडीपाललभदा के जिन्नीपे दुर्धरणीतले षानन युयुे बलागंधसुरो बली वीरभद्रेण मदन कांदोपी का युयुेरने नंदीज जीरराज युयु परस्परं। ध्वजासुरपुष्पदन्तौ शस्त्रास्त्रेर्बाणसञ्चयैः भूतराजो महाकायो युयुद्धादे परस्परं धूर्तश्च विकडश्चैव द्वन्द्वयुद्धमकुर्वतान् चपलेन खदो रोषाच्चार्दूलोऽन्यपदद्भुवि पुनः संज्ञा मवाप्यैनं सोऽपि खड्गेन चाहनत मूर्च्छा मवापमहदिं चपलश्चपलो युधि प्रवृत्ते द्वन्द्वयुद्धे दुयुयुधादे बले उभे जघ्नदुःशस्त्रसङ्खादैर्बाणजालैः परस्परम् सहस्विमा हतस्वर्ग स्य क्षीणेशु शबाण लाष्टि पुनः युयुसर्वसैन नाशय कच्चिच्चौ धृत्वा बोधयामा सैरी कश्चिदुड्डीयन्यपतच्चूर्णयामास वै परम् कश्चिच्चिच्छेद च शिरः कश्चिद्बाहुं रिपोरणे कश्चित् पादौ शरवृष्टिं परे श्रवद्रकृतशस्त्रहदो मरणावध्ययुध्यत कबन्धायुयुद्धुस्तत्र जग्नुस्वांश्च परानपि अपरे सहसापे दुर्विदीर्णवक्षसो नराः परस्पराखादहदौ मृदौ के एकाप्सरप्राप्तिकृते स्वर्गं युद्धमगुर्वदाम् असृग्नद्यभवत्तत्र केशशैवलसंयुदा खड्गमत्स्यवदी केडमहाकूर्माधुरत्यया प्रेतकाष्ठमहाखोरा चामरतूणसंयुदा कञ्चुकग्राहशोभाढ्या महाकटकभेदिका शूलमोदकराभिरुमहाभयविवर्धिनी मेदोजलादुःखधरांसकर्दमशालिनी तदोस्तमित्त आदित्ये न प्राज्ञा न हन्तव्या वयं दैत्यवाहिनीचारिणः सुराः न हन्तव्या वयं देववाहिनी चारिणोऽसुराः एवं कोलाहलैस्तत्र प्रायुध्यन्तपरस्परम् आशिषो ददुस्तत्र स्वापदाभूतराक्षसाः सृगालाः पदगाह्येनास् तृप्ता पार्वदिनन्दनं दिनत्रयमभूदेवं दिवा रात्रौ महारणः वाद्यशब्दैर्जयं रात्रौ घोषयन्तः परस्परम् एवं गन्धासुरो युध्य सेनान्या बहुविस्तरं मद्यपानेन मत्तोसौ त्यक्त्वा शस्त्राणि वेगवान् अहनन्मुष्टिखादेन सहसातं षडाननं न्यपतत्सम सदा भूमौ वज्रागद इवानलः अधावत्सोऽपि लब्ध्वा पर्वतः संज्ञां द्वादशभिर्हस्तैरविध्यत्तं महासुरं शरजालन्यनेकानि विसृजन् षड् निवार्य तं शरैः गन्धासुरो महा वेगात् षडाननमनामयं तन्निवार्य दधारैनं चरणे स षडाननः अकस्माद्भ्रामयित्वैनं पादयामास सस्याङ्गशतधाजादं गदा सोदृढाततः तस्मिन् हृदे तस्य सेनाययव्यग्रा दिशो पृष्ठलग्नो निन्दति स्म सेनाम् तां षडाननः सेनश्च क्रोधनश्चैव शदग्नीं येषां शब्दो महानासीत् खनानामिव गर्जदाम् ऊचु दुष्टसेनानो निहना बहु इदानीं व्याहि भवनं हदो रविसुतस्यः तद आच्छादयामासुर्युगपत्ते षडाननं ग्रामसिंहा यथा सिंहं बहवो बलवत्तराः धनुर्मोचितैर्बाणैर्न्यसन तान् षडाननः तदस्ते मूर्च्छिद्धाप्ये दुर्मुहूर्ता दुद्धिदा पुनः पाशं स्कन्दगले निन्युक्तं पशुवत्त्रयः ज्ञात्वा निदं षण्मुखम् माथा वंस्ते त्रयो जवाद हिरण्यगर्भो बलवां श्यामलो रक्तलोचनः त्रिभिस्ते मुष्टिखादेन हदा पे दुर्धरातले तदो मदनकान्तोऽपि वीरभद्रो महाबलम् न्यपनश्चस्त्रखादेन समूर्चा मकदीम्ययो, त्यक्त्वा मूर्चा वीरभद्रो दण्डखादान्यपाययत मृदं मदनकान्तं तं वीरराजो महाबलः ज्ञात्वा प्रायान्निहन्तुं तां स्त्रीन् सुरान् बलवत्तरान् तदस्तान्यहनद्रोषा शृङ्गाभ्यां नन्दिकेश्वरः अस्रवध्रुधिरं वक्त्रा चदधा भूतले पतत तं कथं तु विलोक्याशु चत्वारो सुरसप्तमाः आययोर्नन्दिनं महाकायो धृतश्चैव सर्वदेवजितो रणे नानाशस्त्राय निजघ्नुस्ते नन्दिनं बलवत्तरं पदिते नन्दिनितदश्चत्वारो युद्धदुर्मदाः पुष्पदन्तो भूदराजो विकटश्चपलोऽपि च ते दुशैलान् तोलयित्वा निचिक्षिपुः सर्वेषां मस्तकाभिन्नाश्चूर्णी भूताश्च केचन सराखादेन ते सर्वे धरायां पतितारणे केचिच्च सिन्धुमगमं शस्त्रखादप्रपीडिताः पराजयं स्वसैन्यानां प्राहुर्देवजयं तथा जयं प्राप्ता देवसेना बहु बहुवाद्यान्यवादयद मयूरेश मयूरेश जयत्वं, त्वं जय सर्वदा इत्यब्रविधर्शयुधा स्वानन्देन ननर्त च इति श्रीगणेशपुराणे क्रीडाखण्डे चतुर्दशोत्तरशततमोऽध्यायः ओ